damet ayamoda balavakulana <laughs> vadhi vadhi ejo ejo no hane ne sthivi ayamoda balavakulana vadhi vadhi ejo ejo no hane ne sthivi vaakehama vadavashini kumamadavirganaada नमः कण्णे आदते दिगरासु तथास्तु देव नमः विश्वदे नमः श्री नमः श्री नमः ओम नमः महा गणानाम् वा गणपतिगुम् हवामहे कविम् कवीनामश्रवतमम् ज्येष्ठराजब्रह्मणामश्रुण्वन् भित्तिपादनम् ॐ श्रीमहागणपतये नमः प्रणो देवी सरस्वती वाजेभिर्वाजिनी व्ली नूम् वित्रिय वतुम् वाँ़्ते प्रि नम्हा Let us start from the beginning of Vagna Vishnu and we'll go to the 7th Anuvaga. And 7th we'll repeat twice one more time. Okay? Ready? Okay. 1, 2, 3. Om Om श्च यमे प्रसितिष्यमे इत्मिष्यमे इत्मिष्यमे मेसु परस्यमे तु काशोरेरवश्यमे पुतिष्यमे ज्योतिष्यमे सुवैष्यमे सुवन्तिमित्रमे वानन्द्यमे ज्ञानमे ध्यानस्थले सुचन्नहिंमे ओक्जामे मे चन्द्रश्च मे श्रोत्रं च मे दक्षश्च मे बलञ्च मे कमश्चम आयुश्च मे शराचम आत्मा च मे धनु कर्म च मे कर्मच मे कमनि jaytyaṁ samādhitaṁ dṛṣṭiṁ samīṣṭaṁ karmaṁ samyaṁ samīm jame mācame balimācame vaimā vaijī jame mācame balimācame dākhu yācame baliṁ jame poliṣṭaṁ dātyaiṁ samīṣṭaṁ jalaccame अधन चर्वी, वाशश चर्वी, वाशश चर्वी, वाशश चर्वी, निष्यञ्च मे वित्तञ्च मेयं च मे भूतञ्च मे भविष्यच्च मे सुगञ्च मे तु वदञ्च मृगञ्चमऋिश्च मेञ्च मे लिप्तिश्च मे चामे, चामे, मे मातिश्च मे त्याञ्च मे मायश्च मे श्च मे भद्रञ्च मे एकश्च मे मध्ये कश्च मे भगश्च द्रविणञ्च मेन्ता च मे हन्ता चेमश्च मे त्रिभिश्च मे विष्पञ्च मे पुनश्च मेमिष्ठ मे ोश्च मे रसूश्च हरयन्त्रमृतं मेयस्मेन परञ्च मे मैसमे बाष्णुङ्गायुपामि भञ्जमे ूर्च मे सूता च मे मैरश्च मे प्रसश्च मे पृथञ्च मे पगुश्च मे दक्षिश्च मे च होभिध्यञ्च मेन्द्रायश्च मे बहुज भूयश्च मे पञ्चमे नतरं च मेश्च मे पृच्च मे विश्वयश्च मे गवाश्च मे माषाश्च मे शिला आश्च मे मुग्गाश्च मे बल्वाश्च मे धूमाश्च मे मधुरा अश्च मे ङ्गवश्चमे न वश्चमे शामाका आश्च मे निवारा च मे मृत्तिका च मे व्ययश्च मे पर्वताश्च तिकताश्च मे मधस्पतयश्च मे हिरण्यञ्च मेयश्च मे श्रीतं मे यत् कर्म्याश्चनि भाष बहु पाशवाः ह्यन्येन नित्ये नीर तप्ता कृतं यत् दिष्टमे इच्छे पुण्ड्रितं वदति यत् इतिन वतते माता दिश्यामि आत्मचेन कृतं नित्यं एमासिर्ममनि चिवितेन अग्निश्च महीन्द्रश्च मे सोमीकमहिन्द्रश्च मे मिला च इन्द्रश्च मे सरस्वती च महिन्द्रश्च मे पूर्णा च महिन्द्रश्च मे बृहस्पतिश्च महिन्द्रश्च मेन्द्रश्च महिन्द्रश्च मे मिन्दर महिन्द्रश्च मे वर्षा indrasya meendri nauchama indrasya seva indrasya meendri indrasya meendri prithvi sam indrasya meendri indrasya meendri jami icchama indrasya meendri indrasya meendri devatya indrasya meendri indrasya meendri tatya padidechama indrasya meendri ुं शुष्टमे विपदिष्टमन्मन्द्रवायवश्चमे रामश्च मह्माश्विनश्च मे प्रमिमानष्टमेन्द्र वैश्वदेवश्च मे श्च मे वै श्वाश्च मे दिव्यान्यश्च वैव देवैर मे मरुद्वतीयायमे महेन्द्रश्च आदित्यश्च मे पावित्रश्च मे तारस्थस्य मे श्च मे आर्यमेके वन् टु त्री शुच मेश्च मे दाभ्यश्च मेधिपतिश्च मे स्यामश्चमे वरुणे रच्युरश्च मे मन्ते वैश्व चतुश्च मे वैश्वादुप्रभा नष्टमे वैष्णदेव Natsyaya-ashyame maheharashyama aditya-ashyame ra-vidhashyame dara-ladhashyame juhna-ashyame badime-hhata-ashyame aariyo-janashyame Nandasya-ashyame Okay, so who wants to try it on their own, the seventh one? I can look. Okay, I heard somebody from the web. i i can go okay go ahead adum suschame nidasmisye meda aphyaschame tripatischama upagum suschama andarayamachchama indragum suschame indaryamachchama indrawa upagum suschame upagum उपाकुंसुश्च मे प्रतिप्रधानश्च मे शुक्रश्च मे प्रतिप्रस्थानश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्धी च म आक्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मृतुग्रहाश्च मे तिग्राह्याश्च मे इन्द्रा इन्द्राग्नश्च मे वैशुदेवश्च मरुद्वितीयाश्च मे माहेन्द्रश्च आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवृतश्च मे हारियोजनश्च मे Good. Just to pay attention to whether whether it it it it is is is is is is is and okay? okay? okay? Usually, when the the okay. by by by Swara, which which like like like A, i, uru, a a a E, U, etc., will will will be be uh -huh. If it's okay. by a vangana, which is like ka, ka, Ga, Va, whatever, So okay? So So that is the difference. Aditya, लैक् मा So just pay attention to to whether it it, is. is If have a a doubt, that's one way to look at it, okay? Okay. Okay. the printing is not very clear or something. Okay. If it's followed by, uh, by swara, it'll be a ma, otherwise it'll be Otherwise, Agum Upagum श्च ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ति च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वश्च मे माहेन्द्रश्च आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्मीवतश्च i can go i will go go ahead okay angumcha me rasmischa me daaadyascha me divadischame ubagamchame once again that that me divadischama ubagamchame the same thing i told uh, me divadischama ubagamchame uh, maitryamachama uh, aidravayasya me maitra varunachama maitra varunachama ैत्रावरु मैत्रावरुणश्च आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्लश्च मे मन्ती च आग्रयणश्च मे वैश्यदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मे ऋतु कृतुग्रहाश्च मे विग्राह्याश्च ऐन्द्राग्नश्च मे वैश्यदेवश्च The thing is, another thing you can do is, like, you know, go slower. So then, what you can do is, when you are practicing it, go very slow. You don't have to do any fast. You say, Agum Shushcha Merashmeshcha Medha Abhyascha Medha Dhipatischa Maghya Agum Shushcha Medha Dhipatischa Maghya Agum Shushcha Medha Dhipatischa Maghya So what happens is, you know what has to be pronounced next. So there's no need to go. hari idli so what when you practicing okay. and you say that then it comes automatically later on and you speed okay thank fast. you i, I speed because i am used to that speed but you know you can go much much slower okay <laughs> thing are all just okay okay yeah. <laughs> so maybe i should slow much slower then okay i'll try okay i can go okay agumsh च मे रश्मिश्च मे दाभ्यश्च मेधिपतिश्च उपागुंशुश्च मेऽन्तर्यामश्चम ऐन्द्रवायवश्च मे मैत्रावरुणश्च आश्विनश्च मे प्रतिप्रस्थानश्च मे मे वैश्वानरश्च ऋतुग्रहाश्च मे तिग्राह्याश्च ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च आतिथ्यश्च मे सावित्रश्च अल्गो हरि अदम् शुश्च मे रश्मिश्च मेदाभ्यश्च मेधिपतिश्च उपागुं शुश्च मेन्तर्यामश्च मेन् उपागुंशुश्च मेन्तर्यामश्च ऐन्द्रवायश्च मे मैत्राव सोरि ऐन्द्रवायवस् ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रथिप्रस्थानश्च मे शुक्रश्च मे मन्थी चम आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च ऋतुग्रहाश्च मेतिग्राह्याश्च मैन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च मदित्यश्च मे सावित्रश्च मे न् <coughs> I will try to go slower because you guys said okay et maschame paritshame et maschame barhishtame et maschame barhishtame et maschame paritshame et maschame इदमस्य मे बरहिश्च मे वेदिश्च मे इदमस्य मे बरहिश्च मे वेदिश्च मे इदमस्य मे बरहिश्च मे वेदिश्च मे विष्णियाश्च मे इदमस्य मे बरहिश्च मे वेदिश्च मे विष्णियाश्च मे मे बहिश्च मे वेदिश्च मे धिष्णीयाश्च मे युग्मश्च मे बर्हिश्च मे वेदिश्च मे भीष्णीयाश्च मे शुचश्च मेमश्च मे बहिश्च मे श्च मेचश्च मे सृचश्च मे साश्च मेश्च सृचश्च श्च मेचश्च मे विष्ण्याश्च मे सृचश्च मे ृचश्च धिष्णियाश्च मे ऋचश्च मे चमसाश्च मे ग्रावाणश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च उपरवाश्च मे चमसा चमसाश्चमसाश्च मे ग्रावाणश्च मे स्वरवश्च मे श्च मे स्वरवश्चपरवाश्च मे स्वरवश्च मे स्वरवश्च उपरवाश्च मे दि शवने च मे स्वरवश्च मे दिशवने च मे स्वरवश्चपरवाश्च श्च मे शुचश्च मे चमसाश्च मे द्रावाणश्च मे त्वरवश्च उपरवाश्च मे षवणे च मे च मे बहश्च मेदिश्च मे धिष्णीश्च मे चमसाश्च मे ग्रावाश्च मेश्च मे कृष्णवे मे दिष्कणे च मे इद्मस्चमे बहिर्चमे बेदिच्चमे बेदिच्चमे दिष्नियाच्चमे सुरुचच्चमे चमसाथिच्चमे रावणच्चमे स्वरवच्चमे उपरवच्चमे दिष्नवे मेदिष्वने चमे Okay, let us try individually now, okay? Because let's go slower here, okay? So who wants to try it? इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे शुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वर्वश्च उपर्वाश्च मे धिष्वणे च श्च मे बे स्वेदिष्ट मे धिष्ण्याश्च मे ऋषश्च मे चमसाश्च मे रावाणश्च मे स्वरवश्च मे णे च मे सेकेण्डोने okay. इथमश्च मे बर्हिश्च मे वेदिश्च मे कृष्णीयाश्च मे श्रुतश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च उपरवाश्च मे धिषवणे The speed is okay for you? Yeah. Okay. Who wants to turn it? I can go next. Okay. Idmaschami, barhishami, vedhishami, jishniyashami, श्च मे ग्रावाणश्च मे उपरवाश्च मे दिश वणे च मे ल्गो हरिमश्च मे बर्हिश्च मे वेदिश्च मे डियाश्च मे सृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्चपरवाश्च मे दिशवणे च मेक्ट् हरि ओके श्चनि बर्षिश्चनि वेदिश्चनि कृष्णीयाश्चनि श्रुतश्चनि क्षमसाश्चनिश्चनि स्वर स्वरवश्चपरवश्च स्वरपश्च स्वरवश्च करे द्रोणकलश द्रोणकलश द्रोणकलश द्रोणकलशश्च मे वायव्यानि च मे द्रोणकलशश्च मे वायव्यानि च मे द्रोणकलशश्च मे वायव्यानि द्रोणकलश्या द्रोणकलशश्च मे वायव्यानि च मे पूतभृक्षम् आधवनीयश्च मे आधवनीयश्च मे सोरि द्रोणकलशश्च द्रोणकलशश्च ृच्चम आधवनीयश्चमे ऊदभृचम आधवनियश्च मे अविर्धानञ्ज मे ऊतभृमे ऊतभृच्चम आघवनीयच्चम् आग्नि मे हविर्धानञ्चमे ग्निर्ध्रञ्चमे हविर्धानञ्च मे गृहाश्च मे हुथानञ्च मे गृहाश्च मेग्नि मे ह्युत्थान गृहाश्च आग्नेय मित्रञ्चमे हवर्दानञ्चमे रिहाश्चमे सदश्चमे आग्नेयञ्चमे हवर्दानञ्चमे रिहाश्चमे सदश्चमे आग्नेयञ्चमे हवर्दानञ्चमे रिहाश्चमे सदश्चमे श्च मे सदश्च मे पुरोडाश्च पुरोडाशाश्च मे पचताश्च मे वृधश्च मे पुरोडाशाश्चे पचताश्च मेधश्च मे अवभृथश्च ओके पचताश्च मे वभ्रथश्च मे ओके दे न्यूडि प्रश्च मे था इस् महाप्राण थाश्च मे पचताश्च मे वभ्रथश्च मे श्च मे पचताश्च मे बभृधश्च मे स्वदाकारश्च मे द्रोणकलशन् द्रोणकलशश्च मे वायव्यानि च मे पूदभृक्षम आधपनीयश्च म आग्नेभ्रञ्च मे अविर्धानञ्च मे गृहाश्च मे ततश्च मे पुरोडाशाश्च मे पचताश्च मे वपृथश्च सोरि पुरोडाशा आश्च मे पचताश्च मे वपृथश्च मे ोणकलशश्च मे वायव्यानि च मे भूतभृच्छम आत्मवनीयच्छम आत्मी च मे पद् मे बृधश्च मे स्वादा सदाखानाश्च मे पुरोणकलशश्च मे वायव्याश्च मे भूतभृच्चधवनीयच्छाध मे कलाश्च मे सदश्चे पुरोडाशाश्चेदाश्च मेदश्च मे स्वदाकारश्चे who wants to try that part on their own don't nakalasya i can do okay shona kalasya <laughs> me vaya nijame putavsya mahathavaniya budabrichchama budabrichchama श्च मे अवर्थानञ्च मे ग्रहाश्च मे श्रदश्च मे पुरुढासा मे पचताश्च मे पभृतश्च मे स्वगाकारश्च मे द्रोणकलशश्च मे वायव्यानि च मे भूतभृच्चम आधवनीयश्च आग्नेब्धं च मे हविर्धानञ्च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे श्रोणकलशश्च मे वायव्यानि च मे पूतभृश्चम आधवनी यम द्रोणकलश्च मे वायव्यानि च मे वायव्यानि च्यानि च मेदभृश्च मे मे अविर्दानं च मे गृह्याश्च मे सदाश्चे गृहाश्च मे सगश्च मे उडाशाश्च मे पचाश्च मे बभृतश्च मे स्वगा द्रोणकलशश्च मे वायव्यानि च मे ऊतभृच्चम आधवनीयश्च म आग्नी ध्रञ्च मे हविर्धानञ्च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च द्रोणकलशश्च मे वा वायव्यानि च मे पूतभृच्चम आधवनीयश्च ग्नि ईद्रञ्च मे हविर्धानञ्च मे गृह गृहाश्च मे सतश्च मे पुरोडा पुरोडाशाश्च मे पचताश्च मे बभृताश्च मेश्च मे स्वगा स्वगा Soft okay? Correct okay, so Let us try try this two times together, together okay? Starting from में में till the end okay, We will try, try it together twice. twice Then टु म् टुगे स्टार्टिङ्ग् फ्रम् टिल् दे एके विके Ready? Ready? 1 2 3 श्च मे बर्हिश्च मे भ्रेदिश्च मे विष्णेयाश्च मे कृशश्च मे चमसाश्च मे ग्रामाणश्च मे सरस्वश्च मे मे शरश्चपरवाश्च मे विष्णवे विष्मणि श्च मे अधानश्च मे गुहारश्च मे सदश्च मे पुरोडाश्चाश्च मे पचकाश्च मे बहुश्च मे स्वधाश्च मे ओके वन् मोर् टै वन् टु त्रिद्मश्च मे बर्हि च मे वेदिष्णम् वेदिष्ट मेदिष्णीयाश्च मे ृचश्च मे चमसा मे द्रावाणश्च मे गरवश्च म उपरवाश्च मे दिशिपणे च मे द्रोणकलशश्च मे वायव्यानि च मे सूतभ्रच्चम आधगीयश्च मे अभिर्धानच्च अक्खमे पुरूडाक्षमे पदपाष्टमे ममदच्छमे वनाकारच्छमे इस दरो के पर एवरीबॉडी मिल गया उसका सो ही विल बी ओके नेक्स्ट वीक देन ओके ओके थैंक यू हेरी लोकाः समस्ताः देन् साफ़्ट्वेर् फर् टुडे ओके ओं लोका भवन्तु लोकाः समस्ताः भवन्तु लोकाः समस्ताः सुनो भवन्तु